इवत्यारावद् दशकम् गजेन्द्रमोक्षम् इन्द्रद्युम्नपाण्ड्यकण्डादिराज त्वद्भक्तात्मा चन्दनाद्रौ गदा चेत् त्वत्सेवायामग्नदीरालुलोके नैक्वागस्त्यम् प्राप्तमादित्यकामम् कुम्भोद्भूतिसम्भ्रतक्रोधभार सप्तात्मा त्वम् हस्ति भूयम् भजेति सप्त्वा तैनम् प्र त्यगात्सोऽपि लेपे हस्तीन्त्रत्वम् त्वत्स्मृतिभक्तिधन्य दुःखाम्भूते मद्यभाजी त्रिकूटे क्रीडन् चैले यूतपोयम् वचापि सर्वाञ्जन्तूनत्यवर्दिष्टशक्त्या त्वद्भक्तानाम् कुत्र नोत्कर्षलाभ श्वेनस्तेम्ना दिव्यदेशस्य शक्त्या सोऽयम् केदान प्रजानन् कदाचित् शैलप्रान्ते कर्म तान्तसरस्य यूतैः सार्धम् त्वत्प्रणुनोन् विरेमे हूहूस्तावत्ते बलस्याभिचाप ग्राहीभूतस्तज्जले वर्तमान जग्राहैनम् हस्तिनं पाददेशे सान्द्यर्थम् कि शान्तिदोषि स्वकान त्वत्सेवाया वैभवा दुर्निरोथ युध्यन्तम् तम् वत्सराणाम् सहस्रम् प्राप्ते काले त्वत्पदैगाग्र्यसिद्ध्ये नग्राग्रान्तम् अस्ति वर्यम् युधास्त्वम् आते व्यक्त शुण्ठोक्षिप्तै पुण्टरीकै समर्शन् पूर्वाभ्यस्तम् निर्विशेषात्मनिष्टम् सोत्रश्रेष्ठम् सोऽन्वगाति परात्मन् शुद्ध्वातोऽस्त्रम् निर्गुणस्तम् समस्तम् ब्रह्मे चात्यैर्नाकमित्य प्रयाते सर्वात्मा त्वम् भूरिकारुण्यवेगात् दार्श्यारूटप्रेक्षितभूपुरस्तात् यस्नीन्द्रम् तम् हस्तपद्मेन धृत्वा चक्रेण त्वम् नग्रवर्यम् यधार्ये गन्धर्वेऽस्मिन्मुक्तचापेसहस्ते त्वत्सारूभ्यम् प्राप्यधे दीप्यते स्म एतद्वृत्तम् त्वाम् च माम् च प्रघ्वेयो गायेत्सोऽयम् भूयसे श्रेयसे स्यात् विद्युक्त्वैनम् तेन शार्दम् गतस्त्वम् दिष्ट्यम् विष्णोपागिवातालहे च श्रीहरये नमः